परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवतमहापुराणे सप्तमस्कन्धे पञ्चमोऽध्याय उवाच तयो तद्भाषितं श्रुत्वा वेपमानानुपात्मजा धैर्यमालम्ब्यत तत्र भाषे मितभाषिणे देवो वाम्रविपुत्रौ च सर्वज्ञोऽसुरसम्मतौ सती मां दर्पशीलां च नैवं वदितुमर्हत पित्रा दत्तास्वश्रेष्ठौ मुनये योगधर्मिणे कथं गच्छामि तं मार्गम् पूजले गणसेवितम् कर्मसाक्षी दुष्टा लोकस्थ कर्म साक्षी दिवाक कश्य पाशे संभूत नाषिर् पति त्यक्त कथम मनम भयंदरम असारेस् संसारे जानतो धर्मनर्णय यथे गम देवो चापम दायामी वा नौ सुकन्यायण व्यासवाच इकर्ण्यवच तै न सत्यो विस्मृत भुजब्रूता शनो भयम मुने राजपृथ्वी प्रसर प्रसन्नौते धर्मेण वरवर्णिनि परम्बरय शुश्रोणि दास्या भे तव जालेहि प्रमदे नूनम् आवां देवभिषक्वरो युवानं रूप सम्पन्नं प्रकुर्या वपतिं तव तथा श्रयाणां भस्माकं पथिमेकतमं वृणो समानरूप देहानां मध्ये चातुर्य सा तयोर्वचनम् श्रुत्वा विस्मिता स्वपतिं ददा गतो वाच तयोर्वाक्यम् ताभ्याम् उक्तम् यदद्भुतम् सुकन्यावाच स्वामिन् सूर्यसुतो देवौ सम्प्राप्तो च वनाश्रमे दृष्टो मया दिव्यदेहौ नासत्यो भृगुनन्दन ीक्ष मां चारु सर्वाङ्गीं कामातुरौ भौ कथितं वचनं स्वामिन् पतिं तेन वयौवनम् दिव्य देहं करीश्चाव चक्षुष्मन्तं मुनिं कि समयेनाद्य तं चोदितं समावायव रूपं च करीशाः पतिं तव तत्र त्रयाणामस्माकम् प्रतिमेकम् वृणु तत् श्रुत्वाहं यायाता प्रष्टुम् त्वां कार्यमद्भुतम् किं कर्तव्यमतः साधौ ब्रूहि अस्मान् कार्यसङ्करे देवमायापि धूर्ण्य नव जानैकपटं तयोः यदाज्ञापय सर्वज्ञ तत् करोमि तवेतितम् उवाच गच्छकां तेद्य नासत्यो वचनं मम सुव्रते अमीयस्व समीपम् मे शीघ्रं देवभिषग्वरौ क्रियतामाशु तद्वाक्यं नाद्र कार्याविचारणा एवं सा समधुज्ञाताय तत्र गत्वा वचो ब्रवीत् क्रियतामाशु नासत्यो त्तमौ तच्छ्रुत्वा चाश्विनो वाक्यं तस्यातो तत्र चागतो ऊचतु राजपुत्रीं दां पतित वै विशत्तपः गुरुपाथं च वन पूर्णं ततोऽम्भय प्रविवेशः अश्विनमुपश्चा तत् प्रविष्टौ सर्वोत्तमम् तत ते निसृता तस्मात् सरसतत्क्षणत्रयं तुल्यरूपा दिव्यदेहा युवानः सदृशा किल दिव्यकुण्डलभूषा च समानावयवासथाय ते अब्रुवन् सहिता सर्वे गुणेश्वरवर्णिने अस्माकम् इप्सितं भद्रे पतिं त्वमलानने यस्मिन् द्वाप्याधिका प्रीति वरानने <clears throat> सा दृष्ट्वा तुल्यरूपानां समाधाय वयस्वयसस्तथा एकस्वरान्तुल्यवेषान् त्रिन्वय देव सुतोपमान् सा तु संशयमापन्ना वीक्ष्य तान् सुदृशान् कृतिम् जानन्ति पतिम् सम्यक् व्याकुलः समचिन्तयत् किं करोमि श्रियस्तुल्यः किं वृणोमि न वेद्यहम् पतिम् देव सुतायेते संशये पतितास्म्यहम् इन्द्रजालमिदम् सम्यक् देवाभ्याम् इह कल्पितम् कर्तव्यम् किम् मया चात्र मरणम् समुपागतम् मया पतिमुत्सृज्य वर्णीयः कथञ्चन देवस्त्वाधुनिकः कश्चित् इत्येषा मम धारणा इति सञ्चिन्त्य मनसा परम् विश्वेश्वरीम् शिवाम् दग्धो भगवतीम् देवीम् तुष्टाभुचोदरी सुकन्यावाच शरणम् ताम् जगन्मातः प्राप्तास्मि भृशदुःखिताय रक्ष मेद्य सुते धर्मं न माम्बे तवे नमः भवे रेवी नमः शङ्करवल्लभे विष्णुप्रिये नभो लक्ष्मि वेद मातः सरस्वती इदं जगत् त्वया सृष्टं सर्वं स्थावरजङ्गमम् पाशे संविधमव्यग्रा तथा श्री लोकशान्तये ब्रह्मविष्णु महेशानां जनसम्मताय बुद्धेरासित्वमज्ञानां ज्ञानिनां मोक्षदासदाय अज्ञातं प्रकृति पूर्णाय पुरुष प्रियदर्शनाय भक्ते मुक्तिपदासितं प्राणिनां विशदात्मनाम् अज्ञानां दुःखदाय कामम् चत्वानां सुखसाधना सिद्धिराय योगिनः मम्बे जय धीर्तिदा पुनः शरणं त्वां प्रभन्नस्मि विस्मयं परमङ्गता पतिं दर्शय मे मातः मग्नास्मि शोकसागरे देवाभ्यां चरितं कूटं कम् वृणोमि विमोहिताय पतिं दर्शय सर्वज्ञे विदित्वा मे सति व्रतम् एवं सुता तदा देवी तथा त्रिपूरसुन्दरी हृदये स्यास्तदा ज्ञानम् ददावाशु सुखोदयम् निश्चित्य मनसा तुल्य वयरूप धरांसति प्रथमीक्षान् सर्वान् गौव्रे बालासकम्बतिम् कृतेथे च वने देवौ सन्तुष्टौ तौ बभूवतुः सति धर्मम् समालोक्य सम्प्रीतो दत दुर्वरम् भगवत्याः प्रसादेन प्रसन्नोतौ सुरस्तमौ मुनी वा मन्त्र्यथरसः गमनायोज्यतौ भौ दद्धातु च वधोरूपम् नेत्रे भार्याञ्च यौवनम् दृष्टो ब्रुवीन् महतेजा तौ न सत्यौ विधि इदम् वचः उपकारम् कृतोऽयं मे युवाभ्याम् सुरसत्तमो किं ब्रूमि सुखम् प्राप्तम् संसारेऽस्मिन् अनुत्तमे प्राप्य भार्याम् सुखे शान्तम् दुःखम् बे भवदन्वहम् अन्धस्य चातिवृद्धस्य भोगहीनस्य गाने युवाभ्यां नैरे दत्ते यौवनं रूपमद्भुतं सम्पादितं तदा किञ्चित् उपकर्तुमहं ब्रुवे उपकारिणि मित्रेयो नोपकुर्यात् कथञ्चने तम् धिगस्तु नरं भवेत् च तस्मात् वाञ्छितं किञ्चित् दातुमिच्छामि साम्प्रतम् आत्मनो ऋण मोक्षाय देवेशो नूतनश्च प्रार्थितं वां प्रदास्यामि यदरभ्यं सुरासुरैः गुहां वां नोदिष्टम् प्रीतोऽस्मि सुकृतेन वां श्रुत्वातौ तु दैर्वाक्यम् अभिमन्त्र्य परस्परम् उत्कण्ठासोमपानस्य वर्तते न सुरैः सह विषयो इति देवेन निषिद्धौ चमसगृहे शक्रेण वितते यर्णे ब्रह्मणः कनकाचरे तस्मात् तमपि धर्मज्ञ यदि शक्तोऽसि तापस कार्यमेतधिकर्तव्यम् वाञ्छितं न सुसम्मतम् एक विज्ञा व ब्रम सोमैनौ पिपास्प मुश्यू तय प्राच सश्रुवा वचनमदनो वयसा चमन्व्यास बाल्यांपाप्तवा तस्माद् युवां करिष्यामि प्रीत्याहं सोमपायनौ विशतो देवराजस्य सत्यम् वेतद्रविम्यहम् राज्ञस्तु वितते यज्ञे शर्याते अमितुते इत्याकर्ण्यवचो हृष्टौ तद्दिवम् पति जग्मतुः शवनस्ताम् इति श्रीमद्देवी भागवते महापुराणे अष्टादशसहस्रं संहितायां सप्तमस्कन्धे अश्वेभ्यां च वनद्वारा सोमपानाय प्रतिन्या वर्णनं नाम पञ्चमोऽध्याय श्रीजगदम्बिकायार्पणमस्तु